अथ पञ्चमोऽध्यायः वैशम्पायनुवाच पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः प्रययोर्जाह्नवीकूलात् कुरुक्षेत्रं सहानुगाः सरस्वतीदृशद्वत्यौ यमुनां च निषेव्यते ययुर्वनेनैव सततं पश्चिमां दिशं ततः सरस्वतीकूले समेषु मरुधन्वसु काम्यतं नामददृशुर्वनं मुनिजनप्रियम् तत्र ते न्यवसन् वीरा वने बहुमृगधृजे अन्वास्यमाना मुनिभिः सान्त्यमानाश्च भारता विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः जगामयरथेनैव काम्यकं वनवृद्धिम ततो गत्वा विदुरः काम्यकं तत् चीक्रैरश्वैर्वाहिना स्यन्दनेन ददर्शासीनं धर्मात्मानं विविक्ते सार्धं द्रौपद्या ततो पश्यद्विदुरं तुर्णमारादभ्यायान्तं सत्यसन्धः स राजा अथा ब्रवीभ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यति नः समेत्या कच्चिन्नायं वचनात्सौ बलस्य समाह्वातादेव नायोपयातः कच्चित् क्षुद्यश्चकुनिर्नायुधानि जेष्यत्यस्मान् पुनरेवाक्षवत्यां समाहूतः केनचिदा नाहं शक्तो भीमसेनापयातं गाण्डीवे च संशयिते कथं नु राज्यप्राप्तिः संशयिता भवेन्नः वैशम्पायनुवाच तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णं नृपते सर्व एव तैः सकृतस्स च तानादमीढो यथोचितं पाण्डुपुत्रान् समाश्वस्तं विदुरं ते नरर्षभास्ततो पृच्छन्नागमनाय हेतुम् स चापि तेभ्यो विस्तरतः परिगृह्याभिपूज्य एवं गते समतामभ्युपेत्याप्युक्तं यत् क्षेमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य तद्वै तस्मै न रुचामभ्युपैति